नारायणीयं दशकं सिक्स्टि सेवेन् मल्टिपुल् मीटर्स् स्फुरत्परानन्दरसात्मकनत्वया समासादिदभोगलीलाः असीममानन्दभरं प्रपन्ना महान्दमापुर्मदमं बुजाक्ष्यः निलीयते सौ मयि मय्यमायां रमापतिर्विश्वमनोभिरामः इति स्म सर्वाकलिताभिमाना निरीक्ष्य गोविन्दतिरोहितोऽभूः राधाभिधां तावदजादगर्वामधिप्रियां गोपवधूं मुरारे भवानुपादाय विदूरं तया सह स्वैरविहारकारी तिरोहिते धत्वयि जादतापाः समं समेता वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् हाँ हाँ हा चूद हा चम्पद कर्णिकार हा मल्लिके मालधि बालवल्यः किं वीक्षितो नो हृदयैकचोर इत्यादितास्त्वत्प्रवणा विलेपुः निरीक्षितोऽयं सखि पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती भावना चक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणी चकार त्वदात्मिकास्ता यमुना तडान्ते तवानुचक्रु किल चेष्टितानि विचित्य भूयोऽपि तथैव माना वियुक्तां ददृशुश्च राधां तदः समं ता विपिने समन्तात्तामोऽवतारावधिमार्गयन्द्यः पुनर्विमिश्रा यमुना तदा भृशं विलेपुश्च जगुर्गुणांस्ते तथा व्यथा सङ्कुलमानसानां व्रजाङ्गनाम् करुणैकसिन्धो जगत्त्रयी मोहनमोहनात्मा त्वं प्रादुरासीरयिमन्दहासि सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीं किं किं न चक्रुः प्रमदादिभारात् सत्वं गदात् पालय मारुदेश सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द